हरि श्री श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे नवमः सर्गः पूजाया कुचक्रेण कैकेय्या कोपभवने प्रवेशः एवम् उक्ता तु कैकेयी क्रोधेन ज्वलिता न दीर्घम् उष्णम् निष्वस्य मन्ताराम् इदमब्रवीत् अद्य राम मिथक्षिप्रम् वनम् प्रस्थापयाम्यहम् यौवराज्ये न भरतम् क्षिप्रम् मद्याभिषेचये इदम् चिराणिम् सम्पश्य केनोपायेन साधये भर्तये प्राप्नुयाद्राज्यम् न तु रामः कथञ्चन एवम् उक्ता तु सा देव्या मन्थरा पापदर्शिनी रामार्थम् उपदिं हिंसन्ति कैकेयीमिदमब्रवीत् अन्ते दानीम् प्रपश्यत्वम् कैकेयी श्रूयताम्बचः यथा ते के के भरतो राज्यम् पुत्र प्राप्स्यति केवलम् किम् न स्मरति कैकेयी स्मरन्ति वा निगूहसे यदुच्यमानम् आत्मार्थम् मत्तः श्रोतुमिच्छसि मयोच्यमानम् यदि श्रोतुम् छन्दो विलासिनी श्रूयताम् अभिधास्यामि श्रुत्वा चैतद्विधीयताम् श्रुत्वैवं वचनम् तस्या मन्थरायास्तु के। कैकेयी किञ्चिदुःखाय शयन स्वास्थ्येणादीनमब्रवीत् कथयस्व ममोपायम् केनुपायेन मन्थरे भरतये प्राप्नुयात् न तु रामः कथञ्चन एवम् उक्ता तदा देव्या मन्थरा पापदर्शिनी रामार्थम् उपयुञ्चन्ति कैकेयीम् इदम् अब्रवीत् पुरा देवासुरे युद्धे सह राजषिभिपतिः अगच्छेत् तमुपादाय देवराजस्य साह्यकरोत् दिशमासाय कैकेयी दक्षिणान् दण्डकान् प्रति वैजयन्तम् इति ख्यातम् परं यत्र तिमि ध्वज इति ख्यातः शतमायो महासुरः ददोचक्रस्य सङ्ग्रामम् देवसङ्घै निर्जितः तस्मिन् महति सङ्ग्रामे पुरुषान् शतभीक्षतान् रात्रौ प्रसुप्तान् घन्ति स्म तरसः पास्य राक्षसः तत्र कुरु महायुद्धम् राजा दशरथ ततः असुरैश्च महाबाहु शत्रैश्च शकलीकृतः अपवाह्य त्वया देवी सङ्ग्रामान्नश्च चेतनः तत्रापि वीक्षितशस्त्रि पतिते रक्षित त्वया तुष्टेन तेन दत्तो द्वौवरो शुभदर्शने स पतिर्देवी पतिर्देवि तदावरं तदा वरम् गृह्णीयान्तु भर्त तथेत्युक्तम् आत्मन अनभिज्ञा ह्ययम् देवि सय्यैव कथितम् पुरा मनसा धार्यते मया रामाभिषेकसंभारान् निगृह्य विनिवर्तय टोचयच स्वर्तारस्याभिषेचनम् प्रव्राजनम् तु रामस्य वर्षाणि चतुर्दश चतुर्दश हि वर्षाणि रामे प्रव्राजते वनम् प्रजाभावगदस्नेह स्थिरः भविष्यति क्रोधागारं प्रविश्यद्य क्रुद्धे वाश्व पते सुवानन्तर्हितायां त्वम् भोमौ मलिनवासिनी मास्मैनम् प्रचुदीक्षेथ मा चैनम् अभिभाषथ रुदन्ती पार्थिवम् दृष्ट्वा जगत्याम् शोकलालता दयिता तम् सदा भर्तु अत्र मे नास्ति तं चेत् तत्कृते चे विषेधपि हुताशनम् न तां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुं तव प्रियार्थं राजातु प्राणान् अपि परित्यजेत् न ह्यते क्रमितुं शक्त तव वाक्यं महीपतिः मन्दस्वभावे बुद्ध्यस्व सौभाग्य बलमात्मनः मणिमुक्ता सुवर्णानि रत्नानि विविधानि च दद्यात् दशरथो राजा मास्मतेषु मनः कृथा यौतो देवासुरे युद्धे वरो दशरथौ तदौ तौ स्मारय महाभागे स्वर्थो नत्वा क्रमे यदा तु ते वरम् दद्यात् स्वयम् उत्थाप्य राघवे व्यवस्थाप्य महाराजम् संयमम् वृणुयावरम् राम प्रव्रजनम् नववर्षाणि पञ्च भरते क्रियतां राजा पृथिव्यां पाठिवर्ष चतुर्दश हि वर्षाणि रामे प्रव्राजते वनम् रूढश्च कुतमूलश्च शेषं स्थास्यति ते सुतः रामप्रव्राजनं देवी या च स्वसंवरम् एवं सेच्छन्ति पुत्रस्य सर्वाथा स्वकामिनी एवं प्रवृद्धाजितश्चैव रामो रामो भविष्यति भरतश्च गता मित्र तव भविष्यति येन कालेन रामश्च कृतमूलो भविष्य संग्रहीत मनुष्य सुहदीसम्वात काल मेहमी साध्वसा रामषेक संकल्प विनिवर्तय अनर्थमर्थ अनमेण ग्रहिता सा सतसया प्रतीता कैकेय कै मन्थरामिदम् अब्रवीत् सा हि वाक्येन कुब्जाय किशोरि वोत्पथं गता कैकेयी विस्मयम् प्राप्य परं परमदर्शन प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनी पृथिव्यामतिकुब्जानाम् उत्तमा बुद्धि निश्चये त्वमेव तु ममार्थेषु नित्ययुक्ता हृतैः नाहम् समवबुद्धेयम् कुब्जे राज्ञ चिकीसितम् सन्ति दुष्टंसिता कुब्ज वक्रा परमपापिकः सम्पद्दम् इव वा वै यावत् स्कन्धा शान्तम् सुनाभमिव लज्जितम् पतिपूर्णम् च जघनम् सुपीनौ च पयोधरो विमलेन्दूसमम् वक्त्रम् अहोराजसि मन्थरे जघनम् तव निर्मृष्टम् रचनारामभूषितम् जङ्घे वृषम् पन्यस्थे पादौ च व्यायतौ भव सम्मायताभ्याम् शक्तिभ्याम् मन्थरे क्षौमवासिने अग्रतो मम गच्छन्ति राजसेतीव शोभने आसन्नः माया सहस्रम् असुरादिपे हृदये ते निमिष्टा भूयश्चान्य सहस्र च तदेव स्थगुय दीर्घम् रथगोणाम् मतय क्षत्रविद्या माया च अत्र वसन्ति ते अत्र तेऽहम् प्रवोक्ष्यामि कुब्जे हिरण्मयीम् अभिषिक्ते च भरते साघवे च वते दात्येन च सुवर्णेन सुनिश्चाप्तेन सुन्दरी लब्धार्था च पतीता च लेपयिष्यामि चेष्टयुः मुखे च चे तिलकम् चित्रम् शुभं, दातरूपम शुभम क्या चेक शुभान्याध शुभे वस्त्रे देवतेव दैवते चरित्र उभयम मुखे न प्रतिमा गमीष्यसी गति मुख्याजने तवा क सर्वभरणभूषितः पादोपरिचरिष्यन्ति यथैव त्वं सदा मम इति प्रशस्य माना सा कैकयीम् कै इदम् अब्रवीत् शयानां चयने शुभ्रे विद्याम् अग्नि शिखामिवे गतो सेतुबन्धु न कल्याणी विधीयते उत्तिष्ठ गुरुकल्याणम् राजानम् अनुदर्शय तथा प्रोत्साहिता देवी गत्वा मन्थरय सह क्रोधागारम् सौभाग्य मदगर्विता अनेकशतसहस्रम् मुक्ताहारम् वराङ्गन अवमुच्येव राधानि शुभान्यभरणानि च तदा हेमोपमा तत्र कुब्जा वाक्यवचं गत मन्थरामिदमब्रवीत् इह वा माम्बुतां कुब्जे नृपाया वेदयिष्यति वनं तु प्राप्ते भरत प्राप्स्यते क्षितिम् सुवर्णे न मे ह्यर्थो न रत्ने न भोजने एष्य मे जीवितर्षन्तु रामूय धरि चिच्यते अथवा पुनस्तां शिं महीकितु वचोभिपराक्रमे वाचकुब्जा भरतस्य मातरम् इतं वचो राममुपेत्य च हितं प्रपत्यते राजमिदं हि राघव यदि ध्रुवं तं स सुता च तप्य तप्यसे, तप्यसे ततो हि कल्याणीयत स्वतथा यथा सुतस्ते भरतोऽभिषेक्ष्यते तथा ति विद्वा महिषेति कुब्जया समाहता कुछ कुछ पुन वा गिषुभिर्मुः विधाय हस्तो विस्मिता शसंस कूब्जा कुपिता पुनः पुन यमस्य वा माम् विजयम् गतमितो निशम्य कुब्जे पतिवेदयिषति वनम् गते वा सुचराय राघवे समृद्ध कामो भर्तो भविष्यति अहं ही नैव शरणानेन श्रयो न चन्दनम् न अञ्जनपानभोजनम् न किञ्चिदिच्छामि न चेहजीवनम् न चेदि तुर्गच्छति रायभुवनम् अथैव मुक्त्वा वचनम् सुदरुणम् निधाय सर्वभरणानि भमिने असंकृतामास्तरणेन मेदिनीम् तदा धिशिश्चे पतिरेन्दरी उदीर्णतो भतमोवृता न तदवक्तो ममाल्यभूषण नरेन्द्र पत्नी विमना बहूवसा त्वमो वृताय गौरवमग्न तार इत्यायणे वाल्मीकि अधिकाव्ययोध्याकाण्डे नवमस्तर्ग हे श्री सीतारामचन्द्र नमस्तु